दः पूर्णमिदं पूर्णा पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति सन्धिः ॐ ईशास्यमिदम् सर्वं यत्किञ्जगत्यां जगत् तेन त्यक्तेन भुञ्जिधा मागृध कस्य सिद्धनं कुर्वन् वेहकर्माणि जिजीविषच्छदं समाः एवं द्वयि नन्योऽस्ति नगर्मलिप्यते नरे असुर्या नामदे लोका अन्धेन तमसावृताः तांस्ते प्रेत्याभिगच्छन्ति ये हे जत्मानो जनाः अनेजदेहं मनसो यवीयो न हिनद्देवा आप्नुवन् पूर्वमर्षद् तद्धावदो अन्यानत्येदि तिष्ठस्तस्मिन्नभो मदरिष्वदधादि तदे यदि तद्दूरे तद्वन्द्विगे तदन्तरस्य सर्वस्य तद् सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति सर्वभूतेषु जात्मानं तदु न विजिगुप्सते यस्मिन् सर्वाणि भूतानि आत्मैव भूद्विजानदः तत्र गोमोहकः शोकः एकत्वमनुपश्यदः सपर्यगाच्छुक्रमगायमौरणम् अस्माविरं शुद्धमवापवित्थं याधादत्यदर्थान् व्यदधाच्छाश्वभ्यः समभ्यः अन्धं तमः प्रविशन्ति ये अविद्यामुपासते प्रदो भूय इव दे तमो याहुविद्यायां इविशुश्रोमदीराणा येनस्तद्विजचक्षिरे विद्यां च अविद्यां च यस्तद्वेदो भयं सः अविद्या मृत्युं तृत्वा विद्यामृतमश्नुते अन्धं तमप्रविशन्ति ये असम्भोधिमुपासदे ततो भूयैव देदमो या ओसम्भूत्याम्रताः अन्यदेवाहुःसम्भवाद् अन्यदाहुरसम्भवाद् इति शुश्रूमधीराणां येन त्वद्विजचक्षिरे सम्भूरिं च विनाशं च यस्त्वद्वेदोभयं सः विनाशेन मृत्युं दत्त्वा सम्बोध्याममृतमश्नुदे हिरण्मयेन पात्रेण विहितं मुखं तत्त्वं पोषन् अपावृण् सत्यधर्माय दृष्टे पोषन्ये दर्षे यमः सूर्यप्राजावत्या व्यूहरश्मिन्समूह तेजूयत्ते रूपं कल्याणदमं दत्ते पश्यामि योऽसावसो पुरुषः सोऽहमस्मि वायुरनिलमममृतमभेदं भस्मान्दं शरीरं ॐ क्रदो स्मर स्मर क्रदो स्मर स्मर ग्ने नयसुभधाराय अस्मान् विश्वानि देववयुनानि विद्वान् योद्धस्मज्जुहुराण मेनो भोयिष्ठां ते नम उक्तिं विधेम ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति षन्तिः